नारदपुराणं पूर्वार्थम् अध्यायं 116 अण्ड् सिक्स्टीन् सनातन उवाच शृणु नारदवक्ष्यामि सप्तम्यास्ते व्रतान्यहं यानि कृत्वा नरो भक्त्या सूर्यसायुज्यमाप्नुयात् चैत्रे सप्तम्यां बहिष्नानं समाचरेद स्तण्डिरे गोमया गौरमृत्तिकया स्तृते लिखित्वाष्टदलं पद्मं कर्णिकायां विभावमं विन्यस्येत् पूर्वपत्रे दुदेवौ द्वौ कृतधातुकौ आग्नेयं पत्रे गन्धर्वौ कृतकारकौ दक्षिणे चन्यसेत् पत्रे तथैव राक्षसद्वयम् आकृतौ द्वौ न्यसेत् पत्रे नैहृदे मुनिसत्तम का द्रव्ययौ महानागौ पश्चिमे कृतचारकौ वायव्ययादुधानौ द्वौ उत्तरे जर्षिद्वयम् ऐशान्ये विन्यसेत् तत्पे ग्रहमेको द्विजोत्तम तेषां सम्पूजनं कार्यं गन्धमाल्यानुलेपनैः दीपैर्दूपैः स नैवेद्याय म्बूलक्रमुपादिभिः एवं सम्पूज्य होमं तु कृते नाष्टशतं चरेद् सूर्यस्याष्टाष्टचान्येषां प्रदद्यादाहुधिक्रमाद नामन्त्रणवेद्यां वा तदपूर्णाहुदिं दक्षिणा च ततो यतत् कृत्वा विधानं दे तु सर्वसौख्यमवाप्नुयाद् देहान्धे मण्डलं भानोर्भ गच्छेत् परं पदं वैशाखशुक्लसप्तम्यां जघृणा जाह्नवी स्वयं क्रोधात्पिद पुनस्त्यक्ता कर्णरन्ध्रात् दक्षिणाद तां तत्र पूजये स्नात्वा प्रत्यूषे विमले जले गन्धपुष्पाक्षदाद्यैश्च सर्वैरेवोपचारकैः ततो घटसहस्रं तु देयं गङ्गाभ्रदे द्विधं भक्त्याघृतं सप्तकुलं न ये स्वर्गमसंशयः कमलव्रतमप्यत्र प्रोक्तं तद्विधिरुच्य दे तिलमात्रं तु सौवर्णं विधाय कमलं शुभम् वक्त्रयुग्मा वृद्धं कृत्वा गन्धधूपादिनार्चयेद् नमस्ते पद्महस्ताय नमस्ते विश्वधारिणे दिवाकरनमस्तुभ्यं प्रभाकरनमोऽस्तु दे यदि सम्प्रार्थ्य देवेश्यं सूर्ये चाष्टमुपागदे सोतकुम्भं तु तत्पद्मं कपलां च द्विजेऽर्पयेद् तद्दिने तूपव्रस्तव्यं भोक्तव्यं च परेखनि संभोज्य ब्राह्मणान् भक्त्या व्रत साकल्यमाप्नुयाद निबव्रतं च तत्रैव तद्विधानं शृणुष्यामि निम्बपत्रैस्मृदा पूजा भास्करस्य द्विजोत्तम कोल्का येदि मन्त्रेण प्रणवाद्येन नारद निम्बपत्रं तदोऽस्नीया च येद्भूमौ च वाग्यदः द्विजान् परेष्णी सम्भोज्य स्वयं भुञ्जीदबन्धुभिः निम्बपत्रव्रतं चैतत्कर्तॄणां सर्वसौख्यतं सप्तमी शर्कराख्यैषा प्रोक्ता तच्चाभिमे शृणो अमृतं विबदो हास्तात् सूर्यस्यामृतबिन्दवः हा निष्पेदुर्भुवि चोत्पन्नाशालि मुद्गयेक्षव शर्करा जततिकीक्षुसारा मृदोपम इष्टार विरद पुण्य शर्कराव्यक्यो शर्करा सतमी वाजिमेधबल शर्वुखोपमनी पुत्रसन्धिवर्धि हिसंर्करा शर्करा भोजनम तथा कर्तव्य कि प्रयत्न ने दिप्रीय ्याभक्त्या च वै सद्गतिमाप्नुयाद ज्येष्ठेत शुक्लसप्तम्यां जाद इन्द्रो रविस्वयं तं सम्पूज्यभिधानेन स्वभव सो सोजितेन्द्रियः स्वर्गतिं लभते विप्रदेवेन्द्रस्य प्रसादतः पषाढशुक्लसप्तम्यां विभस्वान्नामभास्करः जाध त्वं तत्र सम्प्रार्च्य गन्धपुष्पाधिभिपृथग लभते सूर्यसायुज्यं विप्रेन्द्रात्र नसंशयः संशयः श्रावणेषु प्रसत्तम्या माव्यङ्गाक्यं व्रतं शुभं कार्पासं तु चतुर्गस्थं सार्धवस्त्रं हि गोपतेः पूजान्ते प्रीतये देयं व्रतमेदच्छुभावहं युक्ते यं तदा स्यात् पावनाशिनी अस्यां दानं जपो होम सर्वं चाक्षय्यदां व्रजेत् भद्रेधि शुक्लसप्तम्याममुक्ताभरणव्रतं सोमस्य धुमकेशस्य पूजनञ्चात्र कीर्तितं गङ्गाधिभिषोडशा षोडशभिरुपचारैसमर्चनम् प्रार्थ्य प्रणम्य विसृज्य सर्वकामसमृद्धये फलसप्तमिका चेयम् तद्विधानमुदीर्यते नालिकेरम् च वृन्ताकम् नारङ्गम् बीजपूरगम् कूष्माण्डम् बृहदीपूकमिति सप्तफलानि वै महादेवस्य पुरदो विन्यास्यापरदो रगम् सप्त तन्तुकृतं सप्त ग्रन्थियुक्तं द्विजोत्तम सम्भूज्यपरया भक्त्या धारये द्वामघे करे स्त्रीनरो दक्षिणे चैव यावद्वर्षं समाप्यते सम्भोज्य विप्रान् सप्तैव पायसेन विसृज्य तान् स्वयं भुञ्जितमधिमान् व्रद सम्पूर्तिः दवे एवं तु सप्तवर्षाणि हृत्वोपास्य यथा विधि सा युज्यं लभते विप्रमहादेवस्य तद्वृत्ति आश्विने शुक्लपक्षे तु विज्ञेया शुभसप्तमी तस्यां कृतस्नानभूजो वाचयित्वा द्विज्योतमन् आरभ्य कपिलाङ्गां च सम्पूज्य प्रार्थये तदः त्वमहं दत्मिकल्याणि प्रियतामर्यमा स्वयं पालय त्वं जगत्कृष्णं यदोसि संभवा, इत्युक्त्वा वेदविदुषेधत्वा कृत्वा च दक्षिणं नमस्कृत्य स्वयं विप्र विसृजेत् प्रायेत्त्वा प्राशयेत्वर वयं पञ्चगव्यं व्रतं चेदं विधायश्वो भोजयित्वा स्वयं चाद्यात् तदन्नं द्विजशेषितम् कृधं चेदव्रतं विप्र सुभाष्यं श्रद्धयान्विदः देवदेवप्रसादेन मुक्तिमुक्तिमवाप्नुयादे अध कार्तिकशुक्लायां शाकाज्ञां सप्तमीव्रतं तस्यां तु सप्तशाकानि सस्वर्णकमलानि च प्रदद्य सप्तविप्रेभ्यः शाकाहारस्तदस्वयम् द्वितीये द्विजान् पूज्य दत्वा तेभ्योन्नदक्षिणां विसृज्य बन्धुभिसार्धं स्वयं भुञ्जितवाज्ञतः मार्गस्यम्यां मित्रव्रतमुदाकृतं यद्विष्णो दक्षिणं नेत्रं तदेव कृतवानिः अदित्यां कश्यपाज्ने मित्रो नामादिवाकरः अदस्यां पूजनं तस्य यथोक्तविधिना द्विजा कृत्वा द्विजान् भोजयित्वा सप्तैव मधुराधिना सुवर्णदक्षिणां दत्वा विसृज्या स्नेत च स्वयं कृत्वैतद्विधिना लोकं सूर्यस्य व्रजति द्विजो ब्रह्मं तदा शूद्र सत्कुले जन्म चाप्नुयाद पौषस्य शुक्लसप्तम्यां व्रतं चाभयसंमिदम् उपोष्य त्रिसन्ध्यम् समभ्यधरास्थितः क्षीरसिक्तनसम्बद्धम् मोदकम् प्रस्थसंमिदम् द्विजाय गत्वा भोजान्यान् सप्ताष्टभ्यश्च दक्षिणाम् पृथिवी वा सुवर्णं वा विसृज्यस्नीद च स्वयम् अभयाद्यम्रदम् त्वेद सर्वस्याभयदम् स्मृतम् मार्तन्ताख्यं व्रतं नाम कथयन्ति द्विजा परेत्यगमेवे द्विज प्रोक्तमेकदैवतया बुधैः मासे तु समुपोष्यदिने तस्मिन् सम्पूज्यादित्यबिम्बकम् सौवर्णं कन्दपुष्पाद्यै कृत्वा रात्रौ च जागरं परे संभोज्य पायसेन दुः सत्व वै दक्षिणाम्नादिकेराणि तेभ्यो दत्त्वा गुरुं तदः सौवर्णं गुरभिर्बिम्बं युक्तं दक्षिणयाज्ञया समर्प्य जभृशं प्रार्थ्य विसृज्याद्यात् स्वयं तदः यद सर्वाप्तं नाम सम्प्रोक्तं सार्व व्रदस्यास्य प्रभावेण द्वैतं सिध्ये सर्वथा मा कस्य शुक्लसप्तम्या मचलाख्यं व्रदं स्मृदं त्रिलोजन जयतीदं सर्वपापर स्मृता रथाख्या सप्तमी च यं चक्रवर्ते त्वदायिनी अस्यां हैमीं हैमाश्वयुक्तरथगां दुग्धदे सहे भां यो भावभक्तिसहितः सगदो हि लोकं शम्भोः स मोदय इापि जुक्तभोगः भास्करीसप्तमी चयं कोडिभास्वद्ग्रहोपमा अरुणोदयवेलायामस्यां स्नानम् विधीयते अर्कस्य च बदर्याश्च सप्त सप्तदलानि वै निधाय चरसि स्नायात् सप्त जन्माखान्तये पुत्रप्रथम् प्रथम् चात्र प्राहादित्य स्वयम् प्रभुः व्योमाखसिदप्तम् ज्ञान् पूज्य जेन्माम् विधानतः तस्याकम् पुत्रताम् यास्ये जिदेन्द्रियो भूत्वा समुपोष्य दिवानिश्यं पूजयेदपरे चाग्नि होमं कृत्वा द्विजांस्ततः दध्यो धनेन पयस पायसेन च भोजयेद अनेन विधिनाय स्फुरुदे पुत्रसप्तमी लभदे सदु सत्पुत्रं क्लसप्तम्यां व्रतम् अर्कपुडं चरेदम् अर्कपत्रै यजेदर्कमर्कपात्राणि चास्नुयाद अर्कनाम जभे चश्वदितं चार्कपुडं व्रतं धनदम्बुद्रदं च इद सर्वपापप्रणाशनं त्रिवर्गदामिधि प्राहुः के जिदे दध्वं द्विजा यज्ञव्रतं तदाप्यन्यविधिवद्धोमकर्मणा सर्वासु सर्वमासेषु सप्तमीषु प्रोक्तं सर्वपामिकमित्यलम् यदि श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे द्वादशमासस्थितसप्तमीव्रतनिरूपणं नाम षोडशाधिकशतमोऽध्यायः ओम्